मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फोर्टि ऐट् सिन्धूरवधम् श्रीगणेशाय नमः मुद्गल उवाच एकदा नारदो योगीसिन्धूरासुरमागमद पूजितस्तेन तं विप्रो कषयुक्तो जगादः नारद उवाच कैलासे शङ्करस्यैव बभूवे पुत्र उत्तमः गणेशस्तपसतुष्टसिद्धिबुद्धिपदि स्वयं देवैः सम्प्रार्थितसोऽपि त्वां कनिष्यति निश्चितम् अधो यत्नपरो दैत्य भव गच्छामि मानद एवमुक्त्वा महायोगि नारदस्वेच्छयाचरन् गतः सोऽपि भयोद्विघ्नो बभूवा ये तस्मिन्नन्तरे तत्र प्रधानं सहसा गतं विचायतेन दैत्येन्द्रो ययौ हन्तुं सुरान्पुरा समागदं विलोक्यैव पलायन्तेन्द्रमुख्यकाः ब्रह्माणं शरणं सर्वे भयभीदादिवौकसः सिन्धूरकोपसंयुक्त आययौ तत्र मानद ब्रह्मा कंसं समारुह्य देवैः पपाल तत्क्षणाद विकुण्ठे स विष्णुं दैत्यस्तत्र समागतः ततो विष्णुशिवं देवैर्ययौ सत्वर एव च तत्रापि स ययौ दैत्यशम्भुर्देवाैर्गणेश्वरं तुष्टावदैत्यनाशार्थं ततः स वरदो भवद सिन्धूरमाययौ तत्र प्रभुः परशुधारकः गजाननो मूषकारूटको भूत्वा प्रदापवान् तं दृष्ट्वा योद्धुमायान्तं सिन्धूरक्रोधसंयुधः जगादस्व मदेनैव युक्तः परमदुर्जयः सिन्धूर उवाच किमर्थं रणभूमौत्वा मागतोऽसि गजानन बालभावेन मा मूर्ख बाल न जानासि सुरेरितः मछ्वास्य न चलन्ति स्म मेरुमन्दरकादयः तलप्रहारवेगेन ब्रह्माण्डं सतदा भवेद शिवादय सुरेशाश्च भयभीदा समागताः तान् गणाधीश योद्धुं कथमुपागतः बालभावेन संयादं न त्वां हन्मि गजानन त्वत्प्रेरकान् सुरांश्चाकं हनिष्यामि न संशयः क्रोधेनाकं चयं किञ्चिदालिङ्गामि गजानन स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद एवं श्रुत्वा गणाधीशो दैत्ये शस्यवजो महद स उवाच प्रहस्याधसिन्दूरं लोकपीटकम् श्रीगजानन उवाच दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् स्वानन्दवासिनम् पूर्णम् ब्रह्मभूतम् विशेषदः यवमुक्त्वा विराड्रूपं दधारस गजाननः अस्ताभ्याम् मर्दयित्वा तम् मस्तके विभुरालिपद ब्रह्मणो रक्षणार्थं स वचःसिन्धूरधारकः गजाननो बभूवापि भक्तेशो भक्तिभाविदः सिन्धूरम् मर्दिदम् दृष्ट्वा देवाकर्षसमन्विताः तुष्टुवुस्तम् प्रपूज्यैव भक्तिनम्रात्मकन्धराः देवाऊचुः गजाननाय पूर्णाय साङ्ख्यरूपमयाय विदे ते विदेहेन च सर्वत्र संस्थिताय नमो नमः अमेयाय च हेरम्भाय ते परशुधारकमूषकवाहनायैव विघ्नेशाय नमो नमः अनन्दविभवायैव परेषां पररूपिणे गुहाग्रजाय देवाय शिवपुत्राय ते दे नमः पार्वतीनन्दनायैव देवानां पालकाय ते दे। सर्वेषां पूज्यदेहाय गणेशाय नमो नमः स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत विष्वादीनां विशेषेण कुलदेवाय दे नमः योगाकाराय सर्वेषां योगशान्तिप्रदाय च ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूय प्रदायते सिद्धिबुद्धिप्रदायिने मायिने मायिकेभ्यश्च मोहदाय नमो नमः जम्बोदराय वैतुभ्यं सर्वोदरगताय च अमायिने च माया आधाराय नमो नमः गज बीजं यस्तेन चिह्नेन विघ्नभ योगिनस्त्वं प्रजानन्ति तदाकारा भवन्ति तेनत्वं तेन त्वं गजवक्त्रश्च गजानन वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवभा शुक्रादयश्च शेषाद्या स्तोदुंशक्ता भवन्ति न तथापि संस्तुतोऽसि त्वं त्वद्दर्शनात्मना गजाननं प्रणेमुस्तमेव मुक्त्वा शिवादयः स तानुवाच प्रीदात्मा भक्तिभावेन तोषिदः श्रीगजानन उवाच भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेद पठदे शृण्वदे देवा ब्रह्मभूय प्रदायकं वरं वृणुद देवे शास्तुष्टिं स्तोत्रेण जागदः दस्यामि सकलाभीष्टं भवदां यच्चिकीर्षितम् शिवादय ऊजुः यदि प्रसन्नभावेन वरदोत्सिगजानन तदा तिष्ठगृहे शम्भो सर्वदा विघ्ननाशनः त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरन्तरं प्रत्यक्षं योगरूपं च पश्यामस्तेन सार्थकाः मुद्गल उवाच गजाननस्तानुवाच तथेदि सुरेश्वरान् स्वलोकम् कल्पयामास तत्रैव शिवपार्श्वगं दशयोजनसाहस्रविस्तारस्तस्य मानद गणा कुमुदमुख्याश्च कल्पिदा मोदकादयः तिष्ठति स्वर्गलोकेषु तदादिगणनायकः गणेशलोक एवासौ बभूवे भुक्तिमुक्तिदः स कामास्तं समागम्य पतन्ति पृथिवीतले निष्कामास्तस्य देहे ते दे अन्धेलीना भवन्ति हि एतत्ते कथितं सारं गजाननचरित्रकम् शिवपुत्र ब्रह्मेशों बभूव जश्रुणो दक् पठेद्वा तस् सिद् भविष्य प्रजाद तथा ना सुख प्रदम ओं तत्सिदि श्रीमदे पुराणोपनिषद्दिश्रीम उद्गले महापुराणे चतुर्थे खंडे गजानन चिदे वधो सिंदूरवधो ना चरशोध्याय ओ